श्रीमन्महाभारतम् आदिपर्वणि स्वयंवरपर्वणि राजपराङ्मुखीभवने षडशीत्यधिकशततमो अध्यायः वैशम्पायन तेऽलङ्कृताः कुण्डलिनो युवानः परस्परं स्पर्धमाना नरेन्द्राः अस्त्रं चात्मनिमन्यमाना चात्मनि मन्यमाना सर्वे समुत्पेतुरुदायुधास्ते रूपेण वीर्येण कुलेन चैव शीलेन वित्तेन च यौवनेन समिद्धदर्पा मदवेगभिन्ना मत्ता यथा हैमवता गजेन्द्राः परस्परं स्पर्धया प्रेक्षमाणाः सङ्कल्पजेनाभिपरिप्लुताङ्गाः तृष्णा ममैवेत्यभिभाषमाणा नृपासनेभ्यः सहसोदतिष्ठन् ते क्षत्रिया रङ्गगता समेता जिगीषमाणा द्रुपदात्मजाम् ताम् चकाशिरे पर्वतराजकन्यामुमाम् यथा देवगणाः समेताः कन्दर्पबाणाभिनिपीडिताङ्गाः कृष्णागतैस्ते हृदयैर्नरेन्द्राः रङ्गावतीर्णा द्रुपदात्मजार्थं द्वेषं प्रचकुः सुहृदोऽपि तत्र अथायुर्देवगणाभिमानैरुद्रादित्या वसवोथाश्विनौश्च साध्याश्च सर्वे मरुतःपथैव यमम् पुरस्कृत्य धनेश्वरञ्च दैत्याः सुपर्णाश्च महोरगाश्च देवर्षयो गुह्यकाश्चारणाश्च विश्वावसुर्नारदपर्वतौ च साप्सरोभिः हलायुधस्तत्र जनार्दनश्च वृष्ण्यन्धकाश्चैव यथा प्रधानम् प्रेक्षाम् स्म चक्रुर्यदुपुङ्गवास्ते स्थिताश्च कृष्णस्य मते महान्तः दृष्ट्वा तु तान् मत्तगजेन्द्ररूपान् पञ्चाभिपद्मानि वारणेन्द्रान् भस्मावृताङ्गानि व हव्यवाहान् कृष्णः प्रदध्यौ यदुवीरमुख्यः शशंस रामाय युधिष्ठिरम् स भीमम् स जिष्णुम् च यमौ च वीरौ शनैः शनैस्तान् रामो जनार्दनम् प्रीतमनाददर्शः अन्येतु तु वीरानृपपपुत्रपौत्राः कृष्णागतैर्नेत्रमनःस्वभावैः व्यायच्छमाना ददृशुर्नतान्वै सन्दष्टदन्तच्छदताम्रनेत्राः तथैव पार्थ पृथु बाहवस्ते वीरौ यम च महा्रौपदीं प्रेक्ष्य तस्वे गपबाणता बभूवु दिवर्षिगंधुंतर्णनागासुर सिजुष्टं दिव्यन गंधेन सकुल च दिव्य पुष्परवकर्माण